श्रीहरये नमः अथ षटसितितमोऽध्यायः राजोवाच ब्रह्मन् वेदितुमिच्छामः स्वसारं रामकृष्णयोः यतोपये मे विजयो या अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभुः गतप्रभासमशृणोन् मातुलेयीं स आत्मनः दुर्योधनाय रामस्तां दास्यतीति न चापरे पौरैः सभाजितो भीष्णं रामे नाजानता च सहा एकता गृहमानीयादित्येन निमन्त्रम् श्रद्धयोपहृतं भैश्यं भले न बुभुजे किल सोपश्यत्यप्रमहतीं कन्यां वीरमनोहरं प्रीत्युत्पुल्ले क्षणस्तस्यां भावशुब्धं मनोधते सापितं च कमे वीक्ष नारिणां हृदयङ्गमं हसन्ती त्यायन्न अन्तरं प्रेप् सुरर्जुनः नलेबसम्भ्रमचित्तकामेन अधिबलीयसां महत्यां देवयात्रायां रतस्तां दुर्गनिर्गतां जकारानुमतः पित्रो कृष्णश्च महरा महारथः रतस्थो धनुराधाय सूर्यांश्चारुदधो विभ्राव्यक्रोशतां स्वानां स्वभागं मृगराडिव तच्छ्रुत्वा क्षपितो रामः पर्वणि न गृहीपादकृष्णेन सुहृदिभिश्च सुहृदिः प्रागिणोत्पारिबर्षाणे भरवध्वोर्मुधा बलः महाधनोपस्करे भ रथास्वनरयोषितः श्रीसुक उवाच कृष्णस्यासीद्विजश्रेष्ठ श्रुतदेव इति श्रुतः कृष्णैकभक्त्या पूर्णार्थशान्तः कविरलं पटः सबुवासविदेहेषु मिथिलायां गृहाश्रमे अनीकया कथाकार्य निर्वर्तितनिजक्रियहान् यात्रामात्रम् हरहर् दैवादुपनमत्युतान् नाधिकं धावता तुष्टक्रियाचक्रे यथोचिता कान् मान उभावप्यश्च्युतप्रियो तयोः प्रसन्नो भगवान् दारुकेणाघृतं रथम् आरुह्य साकं मुनिभिर्विदेहान् प्रययौ प्रभुः नारथो वामदेवोद्रीकृष्णो रामोऽ सितोरुणिः अहं बृहस्पतिः कण्वो मैत्रेयश्चवनादयः तत्र तत्र तमायान्तं पौराजानपधा नृप उपतस्तु सार्ग्यहस्ता ङ्कमत्स्यां पाञ्चालकुन्दीमधो के कयकोश्लार्णान् अन्ये च तन्मुख सरोजम् स्निग्धनं नृप पपुर्दृशिभिर्नृनार्यहा तेभ्यः स्ववीक्षणविनष्टतमिशृग्यहा श्रीमं त्रिलोकगुरुरर्थदृशं च यच्छन् शृण्वन्दिगन्तधवलं स्वयसो गीतं सुरैर्नृभिग्रगाश्च न गैर्विदेहान् अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः दृष्ट्वा तव उत्तमश्लोकं प्रीत्युत्पुल्लाननाशयाः कैदृधाञ्जलिभिर्नेमो श्रुतपूर्वांस्तथा मुनीन् स्वानुग्राय सम्प्राप्तं मन्द्वानौतं प्रभो न्यमन्त्रे यथां आदित्येन सह भगवांस्तदभिप्रीत्य त्वयोः प्रिय चिकीर्षयाम् उभयो आविसद्गेहमुभाभ्यां तदलक्षितः श्रोतुमप्यसतां दूरान् जनकस्वगृहागतान् आनीते श्वासनार्गेशो सुखासीनान् महामनाः प्रवृद्धभक्त्या उद्धर्षहृदयाश्राविलेक्षणः नत्वा तदङ्घ्रीन् प्रक्षाल्य तदपो लोकपावनी हें सकुटुम्बो वहन्मूर्ध्ना पूजयाञ्चक्रईश्वरान् दन्तमाल्यां भरा कल्पधूपदी भार्ग्यगोवृषैहें वाचा मथुरया अवंग विष्ण संप्रृशन सन कैर्मुदाजु उवाच भवान् किं सर्वभूतानामात्मा साक्षि स्वदृग्विभोम् अथ भोजं स्मरतां दर्शनं गतः स्ववचस्तद्रुधं कर्तुमस्मद्धृग्गोचरो भवान् यदा तैकान्तभक्तान् मेनानन्दश्रीरजः प्रियकान् को नु निष्किञ्चनानां सान्तानां मुनीनां यस्त्वमात्मदहान् योवतीर्य यधोर्वंसे नृणां संसरधामिह यशोभिते न तशान्त्यैत्रैलोक्यवृजिनापहं नमस्तुभ्यं भगवते कृष्णाय कुण्डमे नारायणाय ऋषये सुशान्तं तपयीयुषे दिनानि कचिति भूमन् गृहान्नो निवसद्विजैह्ये समेतः पादरजसा पुनीहितं निमे इत्युपामन्त्रितो राज्ञा भगवान् लोकभावनः उवासकुर्वन् कल्याणं मिथिलानरयोषिताम् श्रुतदेवोच्युतं प्राप्तं स्वगृहाञ्जनको यतां न त्वा मुनीं सुसंहृष्टो धुन्द्वन्वासो न नर्तः तृणपीडभृषीस्वेतानानी स्वागतेनाभिनन्द्याङ्ग्रेन् सा भर्यो वनिजे मुधा तथम्बसा महाभाग आत्मानं स गृहान्वयं स्नापयाञ्चक्रमुद्धर्षो लब्ध सर्वमनोरथः पलार्हणोऽसीर शिवामृताम्बुभिर्मुधा सुरभ्यतुलसीकुशाम्बुजैह्ये आराधयामासयतोपपन्नया सपर्यया सत्त्वविवर्धनान्धसा स तर्कया मास कुतो सङ्गमः यः सर्वतीर्थास्पदभाधरेणुभि कृष्णेन सात्यात्मनिकेतभूसुरैः शुभभीष्टान् गृहातिथ्यान् श्रुतदेवमुपस्थितः सभार्य उषाङ्ग्र्यविमर्शनः श्रुतदेव उवाच नात्यानो दर्शनं प्राप्त परं परमपूरुषः यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो आत्मसत्तया यथा पुरुषो मनसैवात्ममायया सृष्ट्वा लोकं परं स्वप्नम् अविविश्वावभासते शृण्वतां गततां सस्वधक्षतां द्वापि वन्दतां नृणां संवतामन्तर्हृदि भास्यमलात्मनाम् कृतिस्तेधोऽप्यतिधूरस्त्यकर्म विक्षिप्तचेतसाम् आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेदगुणात्मनां नमोऽस्तु तेऽध्यात्मविधां परात्मने अनात्मने स्वात्मविभक्तमृत्यभे सकारणाकारणलिङ्गमीयुषे स्वमायमायां स्मृतरुद्ध स्वमायमयां संवृद्धरुद्धदृष्टये ये, ये त्वं साति स्वभृत्यामहे एतद्दन्तो नृणां क्लेशो यत् भावनक्षिगोचरः श्रीसुख उवाच तदुक्तमिति उपाकन्यभगवान् प्रणतार्तिहा गृहीत्वा पाणिना पाणि भ्रगसंस्ततमुवाच श्रीभगवानुवाच ब्रह्मस्तेऽनुग्रहार्ताय सम्प्राप्तान् विद्यमुन्मुने सञ्चरति मया लोकान् पुनन्दः पाधरेणुभिः देवाक्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः सनैः पुनन्दिकालेन ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह तपसा विद्यया तुष्ट्या किमुमत्कलयुतः न ब्राह्मणान्मे दयितं रूपमेतश्चतुर्भुजं सर्ववेदमयो विप्र सर्वदेवामयोह्यहं दुष्प्रज्ञा अविधि त्वैतम् अवजानन्दस्य सूयवः गुरुम् मां विप्रमात्मानं अर्चाधा विज्ञदृष्टयां सराचरमितं विश्वं भावा ये चास्य हेतवः मद्रूपाणीति चेतस्यो दधे विप्रोमदीक्षयां तस्माद्ब्रह्मऋषी नेतान् ब्रह्म एवं चेतर्चितोऽस्मि अद्धानान्यथा भूरि भूरिदिभिहें श्रीशुक उवाचान् सहित्तं प्रभुणादिष्ट सह कृष्णान् विजोत्तमान् आराध्यैकात्मभावेन मैथिलाश्च सद्गतिं एवं स्वभक्त्यो राजन् भगवान् भक्तभक्तिमान् उषित्वा दिश्य सन्मार्गं पुनद्वारवतीमघाद् श्रीमद्भागवतमहापुराणे दशमस्कन्ते उत्तरार्दे श्रुतदेवानुग्रहो नाम षटशीतितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सदगुरुनाथ महराज की जय